गणेशपुराणं क्रीडाखण्डम् अध्यायं फिफ्टि ऐट् क उवाच अर्धमार्गं गतो यावद्धर्षेणासौ नरान्तकः तावदेव श्रुतं काशीराजपत्न्या धृतो नृपः अत्यन्तं सा शुशोचाधपौराये चावशेषिताः आक्रन्दसुमनासिन्मत्स्यानां निर्जले यथा अम्बा सापदिद भूमौ धृदे भर्तरि वैरिभिः मूर्च्छिता च विवर्णा भूद्रम्भा वादहदा यदा सखीभिः सहिदारो दिदृदी अम्बोवाच सिंहखेलो गजानीकहन्दायो रिपुमर्दनः शृगालतुल्यदैत्येन सकथं विधृतो बलाद क्व गदं मत्तमादङ्गसहस्रबलशालिनः बलं भर्तुर्मदीयस्य दैत्यकोटिहरस्यः कथं रुष्टो महेशो मे कदा द्रक्ष्ये निजं पदिं कं देवं शरणं यामि यष्टं शीघ्रं विमोचयेत् कश्यपश्यस्य बालस्य वराद्युद्धं कृतं वरं तद्धि सर्वं वृथा जातं राज्ञिमूढत्वमागतम् यो बालवचनाश्रेष्ठैर्विरोधं कृतवान् वृथा को जयेत्तं महादैत्यं भर्तृग्राहं नरान्धकं विना सर्वैः कथं कल्पकालप्राप्तो हदाशय अहम चरणी चापी कथम वैधव्यता जादो करुणाधिश्य मुनिवाच यम तोगम कर्ण्य कश्य पश्यामजो बलि शब्देन महदागर्जन् ब्रह्माण्डस्फोटकारिणा प्रतिशब्देन गगनं जगर्ज दिशोपिच दिश्योऽपि च च कम्बेधरिणी सर्वा सपर्वतवनाकरा पक्षिणः पतितास्तेन मृदा भ्रान्ता जनास्तदा तदसिद्धिं समालोक्य क्रोधव्याकुलोचनः क्व गदासि महायुद्धप्रसङ्गम् प्राहदामिति सा तदाशयमालक्ष्यचक्रेनाविधां प्रादुरासन्सहस्रशः हलदन्धाः सर्पजिह्वा नराः पर्वतमस्तकाः धारितास्यास्तु भोगोलमकस्माद्भ्रसयिष्णवः अस्य नलं विमुञ्चन्तः सदनेत्रा महाबलाः येषां नास् रन्ध्रगदा न महागजाः सूर्याचन्द्रामसौ येषां श्वासान्निपतितौ भुवि जडाभिपृथिवी येषां सर्वा सम्मार्ज्यते भृशं सहस्रयोजनहस्ताद्विगुणाश्च तदङ्क्रयः ते तेषां तु विनायक समीपतः आगधपरिपप्र च किं कार्यं वद प्रभो देहि मे क्षुधितः स्यादौ भक्ष्यं तृप्तिकरं प्रभो इत्युक्तवन्तं पुरुषमुवाच स विनायकः भक्षय स्वमहासेनां नरान्तकसुपालिताम् त्वादु तच्चिरोमह्यमानयस्वत्वरान्वितः तस्यैन्येन न तृप्तिश्चेद् दास्ये भक्ष्यान्तरं तव एवमाज्ञामनुप्राप्य नत्वा तं कश्यपात्मजं महाक्ष्वेडितशब्दं यादो नरान्तकम् तस्य स्वेडितशब्दस्य नादृग्रूपेण सैनिकाः नरान्तकोऽपि भीतास्ते दुद्रुवुस्ते दिशो दश अस्ते धृत्वा दु तान् सर्वान्मुखमध्ये समाक्षिपद उद्दुधूलरजो भौमम् अन्धकारे महाघोरे दीपिकाभिर्व्यलोकयन् तं दृष्ट्वा पुरुषं घोरं केचित्प्राणान् प्रजह्रीरे ताम्स्चापि जीवतः सर्वां स्त्वरया भक्षयत्यसौ नरान्तकस्तु दृष्ट्वैवं अदर्कयत्स्वमनसा कृदान्तस्यान्तकोपरः आगध किं मया कार्यं दृश्यदे बलवानयं एवं वदन्ददर्शाध सेनामर्धां तु भक्षितां हरदे बलाद निःशेषमेव कार्ता मुमगस्त्य इव वारिधिं दैत्यसेनाचराः सर्वे महाशब्दान् प्रचक्रिरे केचिच्च भक्षितास्तेन चूर्णिताः पादकाददः श्वसा निलाहदा केजित् के परस्परो परितदा वीरा निपतिताः परे याहि याहीः वस्त्रादुं चुक्रशुस्थं नरान्तकं कराखादेन निषदान् भक्षयत्य शतत्क्षणाद असङ्ख्य भक्षणादस्य न जठरानलः अश्वारोहा गजारोहाः पदादा रथसादिनः भक्षिता निकदा वा गजाश्चाने कशो मुने एवं गोलाकलं श्रुत्वा सज्यं कृत्वा धनुर्बलाद धरण्यां जानुनी स्थाप्य शरानुभयतस्तथा आदाय धनुराकृष्यशरवृष्टिं तदाकरोद तदोऽन्धकारमभवच्छरवृष्टिकृतं पुनः पक्षिणः पतिता भूमौ राज्ञो भृत्या अनेकशः स पुरुषो बाणान् दैत्यसमीरितान् असङ्ख्या दाशराष्टस्य रोमकूपेषु निर्गताः स्रवन्तो रुधिरं सर्वे न जानात्यणुवेदनाम् प्रादुश्चक्रे पौरुषेण नरान्तकः तान्यस्त्राण्यगिलत्सर्वाण्यण्ढान्या जगरी यथा कुण्ठितास्त्रः क्षीणशस्त्रो नष्टसायकसञ्चयः क्षीणशक्तिपमालासौ दैत्यराजो नरान्तकः सकालपुषस्त पृठग तदा बभ्रम भूतले दैत्योप्यपृषेद यदा तदा स्वर्गं स्वर्ग जगामाशुया तय नरांधक पृठे च दम धृष्ट्परणीतले तत्रापितं ददर्शाधक् प्राविश्यद्धरणीतलं पुरुषकेशे तदो दध्रे नरान्तकं बिलं गरुडो गरुडोदिबलं यधा तदो नरान्तकं प्राह पुरुषः सबलान्विदः क्व गमिष्यसि दृष्टः सन् ममाग्रे ईश्वरस्य वरान्मत्तो वृद्धा देवर्षिपीडनं मनुष्याणां च संहारमनन्दानां महाखला तव संहरणे दुष्टावतीर्णोऽस्ति विनायकः अहङ्कारं च सकलं त्यक्त्वा तं शरणं व्रज अखानि विनश्यन्ति दृष्ट्वा तत्पादपङ्कजं यत्युक्त्वादं बलाद् दैत्यं मानिनाय नरान्धकं विनायकस्य निकटे दैत्यराजं परं ततः उवाचाधप्रणम्यसौ स्वामिनं तं विनायकम् बक्षिदं सर्वसैन्यं ते आज्ञां प्राप्यमहत्तरं महत्तरम् अत्यन्तं क्लेशितो नेन धृत्वैनं त्वां समानयं मम निद्रास्थलं यच्छ श्रमापनुत्तये विभो सर्वेषां च सुखायास्यमुक्तिं यच्च विनायक एवम् तद्वाक्यमाकर्ण्य तम् विभुः प्रत्यभाषत मम वाक्त्रान्तर्गतस्त्वम् निद्राम् प्राप्नुहि स्वेच्छया इत्याकर्ण्यमहावाक्यम् विनायकमुखोद्गतम् तन्मुखम् प्रविवेशाधतद्रूपम् समपद्यत यथा गन्धो धरा जादस्तत्रैव परिलीयते तथा विनायका जादस्तत्रैव लयमाप्तवान् य इदं शृणुयाद्भक्रिया महदाख्यानमुत्तमं सर्वान् कामान् वाप्याथ मुक्तिं इति श्रीगणेशपुराणे क्रीडाखण्डे नरान्तकनिग्रहो नामाष्टपञ्चाशत्तमोऽध्यायः ॐ